श्रीहरये नमः अथ सप्तमोऽध्यायः श्रीशुक उवाच भरतस्तु महाभागवतो यदा भगवता अवनितलपरिपालनाय सञ्चिन्तितस्तदनुसानपरः पञ्चजनीं विश्वरूपदुहितरम् उपयेमे तस्यामुह वा आत्मजान् कार्तस्येन अनुरूपामात्मनः पञ्च जनयामास भूतादिरिवभूतसूक्ष्माणि सुमतिं राष्ट्रभृतं सुदर्शनम् आवरणं धूम्रकेतुमिते अजनाभं नामधत्वर्षम् भारतमिति यत आरभ्य व्यपदिशन्ति स बहु विन्मही पथि पित्रोपितामहवत्पुर्वत्सलतया स्वेष्वे कर्मणि वर्तमाना प्रजा स्वधर्मम् अनुवर्तमानः पर्यपालयेत् ईजे भगवन्तं यज्ञक्रतुरूपं कृतपिरुच्छावचैः श्रद्धयान् कृदाग्निहोत्रधर्षपूरणमास चातुर्मास्ये पशु सोमानां प्रकृतिविकृतिभिः अनुसवनम् चाधुर्होत्रविधिना सम्प्रच्छरत्सुनायागेषु विरचिदाङ्क्रियेष्वपूर्वं यत्तत। क्रियापलं धर्माख्यं परे ब्रह्मणि यज्ञपुरुषे सर्वदेवत लिङ्गानां नियामकतया साक्षात्कर्तरि परदेवतायाम् भगवति वासुदेव एव वा भावयमान आत्मनैपुण्यं मृदिदकाषायो हविश्वत्वर्युभिह्यमानेषु च यजमानो यज्ञभाचो देवांस्तान् पुरुषावयवेषु अभ्यत्यये एवं कर्म विशुद्धया विशुद्ध सत्व विशुद्धसत्त्वसान्तर्कतया काशशरीरे ब्रह्मणि भगवति वासुदेव महापुरुषरूपोपलक्षणे श्रीवत्सकौस्वनमाला हिधरगधादिभिः उपलक्षिते निजपुरुष हृल्लिखितेन आत्मनी पुरुषरूपेण विरोचमान उच्चैस्तरां भक्तिरनुदिनमेधमानरया जायत एवं वर्षायुतसहस्रपर्यन्तावसित कर्मनिर्वाणा वसरोऽधिभुज्यमानं स्वतनयेभ्यो रक्तं पितृपैतामहं यथाधायं विभज्य स्वयं सकलसम्पन्निकेतात् स्वनिकेतात् कुलहाश्रमं प्रव्राज यत्र ह वावभगवान् हरिरद्यापि तन्त्रत्यानां निजजानानां वात्सल्येन इच्छारूपेण यत्राश्रमबधा निभयतो नाभिर्दृशश्चक्रैर्चक्र नदीनामसरित्प्रवारस्सर्वतः पवित्रीकरोति तस्मिन्वाव किल स एकलः पुलहाश्रमो भवने विविधकुसुम किसलय तुलसिकाम्भुवि गन्त मूलपलोपहारैश्च समीहमानो भगवत आरातनं विविक्तवरत विषयाभिलाक्ष उभपृथोपशमः परां निवृत्तिम् अवाप तयेत्तं अविरतपुरुषपरिचर्यया भगवति प्रवर्तनाम अनुरागभर हृदहृदयस्तैथिल्यः प्रहर्षवेगेन आत्मन्युद्विद्यमानरोम पुलः कुलक प्रवृत्त औत्कण्ठ्यप्रवृत्तप्रणय बाष्पनिरुद्ध अवलोकनयन एवं निजरमण परिचित भक्तियोगेन परिलुप्त परमाह्लाद गम्भीर हृतय हृदावगढति क्षणस्तामभिक्रियमाणां भगवत्स पर्या न स्मार इत्थं धृत भगवत् व्रत ऐणेयाजिन् वाससानुसवनाभिक्षे घाद्रक कपिशम् कुटिलजटा कलापेन च विरोचमान सूर्यर्चा भगवन्तं हिरण्मयं पुरुषम् उज्जिहाने सूर्यमण्डले अभ्युपतिष्ठन्ने धतुवाच परो रजः देवस्य भर्गो मनसे धं जजान पुरेत साध पुनराविश्य षष्ठे हंसं गृध्राणम् निषदृङ्गिरामि महा इति श्रीमद्भागवते महा पुराणे पञ्चमस्तन्ते भरतचरिते भगवत्परचर्यायां सप्त तमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमहराजके जय